ॐ नमस्तेस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तका श्रीकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा श्रीमन् महादेवाय नमः श्रीमन् महादेवाय नमः श्रीमन् महादेवाय नमः श्रीमन् महादेवाय नमः